गरुडपुराणम् आचारकाण्डम् अध्यायम् टु हण्ड्रेड् अण्ड् ट्वेण्टि त्री ब्रह्मो वाच मुनिभिश्चरिदाधर्मा भक्त्या व्यासमयोदिताः यायिर्विष्णुस्तुष्यते चैव सूर्यादिपरिचारणाद तर्पणेन च होमेन संध्याया वन्दनेन च प्राप्यते भगवान् विष्णुर्धर्मकामार्थमोक्षद धर्मो हि भगवान् विष्णु पूजी विष्णोस्तु तर्पणं होमसन्ध्या तथा ध्यानं धारणा सकलं हरिः सूत उवाच प्रलयं जगदोवक्षे वक्ष्ये तत्सर्वं शृणुशौनक चतुर्युगसहस्रं तु कल्पैकाज्यदिनं स्मृतं कृतत्रेदा द्वापरादियुगावस्थानि बोधमे कृते धर्मश्चतुष्पाच्च सत्यं दानं तपोदया धर्मपादाहरिश्चेदि सन्धुष्टा ज्ञानिनो नराः चतुर्वर्षसहस्राणि नरा, नरा जीवन्ति वै कृतान्ते क्षत्रियैर्विप्रा विट्शूद्राश्च जिदाद्विजैः शूरश्चादिबलो विष्णो रक्षांसि जखानः त्रैदा युगे सत्यदान दयात्मकः सत्यदानदयात्मकः नरा यज्ञपरास्तस्मिंस्तद्धा क्षेत्रोद्भवम् जगद रक्तो हरिर्नरैपूज्यो सदायुषः तत्र विष्णोर्भो मरधः क्षत्रिया राक्षसा नहन् द्विवादविग्रहोद्धर्मपि दताञ्जाच्युदे गदे चतुःशदायुषो लोगा द्विचक्षत्रोद्भवा प्रजाः तत्र दृष्ट्वाल्पबुद्धिंश्च विष्णुर्व्यासस्वरूपदृक् तदेकन्दु यजुर्वेदम् च दुर्भाव्यभजत् पुनः शिष्यानध्यापयामास समस्तां स्थानिबोधमे ऋग्वेदमधपैलन्साम वेदम् जैमिनिम् अथर्वाणम् सुमन्धुन्तु यजुर्वेदं महामुनिं वैश्यम्पायन मङ्गन्तु पुराणं सुदमेव च अष्टादश पुराणानि यायुर्वेद्यो हरिरेव हि सर्गश्च प्रतिसर्गश्च वंशो मन्यन्तराणि च वंशानु चरितच्चैव पुराणं पञ्चलक्षणं ब्राह्मं पात्मं वैष्णवं च भागव तन्तधा भविष्यन् नारदीयञ्च स्कान्तम् लिंगं वराहकम् मार्कण्डेयम् तथा ज्ञेयम् ब्रह्म वैवर्तमेव च कौर्मम् मत्स्यम् गारूडञ्च वायवीयमनन्तरम् अष्टादशसमुद्दिष्टम् ब्रह्माण्डमिति सञ्ज्ञितम् अन्यान्युपुराणानि मुनिभिः कथितानि द आद्यं सनत्कुमारोक्तं नारसिंहमधावरं तृतीयं स्कान्दमुद्दिष्टं कुमारेण दुभाषितं चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितं दुर्वासोक्रमाश्चर्यं नारदोक्दमदः परम् आपिलं वामनञ्चैव तथैव वोशनसेरिदम् ब्रह्माण्डं वारुणञ्चाध कालिकाह्वयमेव च माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्जयन् पराशरोक्तमपरम् अरिजं भार्गवाह्वय्यम् पुराणं धर्मशास्त्रञ्च वेदात्वङ्गानियन्मुने न्यायशौनगमीमांस आयुर्वेदार्थशास्त्रगम् गान्धर्वश्च तनुर्वेदो विद्या ह्यष्टादश स्मृताः द्वापरान्ते न च हरिर्गुरुभारमपाहरद एकपादस्थिते धर्मे कृष्णत्वाञ्चाच्युदे गदे जनास्तदा दुराचारा भविष्यन्ति जनिर्दयाः सत्त्वं रजस्तमयिति दृश्यन्ते पुरुषे गणा गुणाः कालसञ्चोदितास्तेऽपि परिवर्धन्त आत्मनि प्रभूतं च यदा सत्त्वं मनोबुद्धिन्द्रियाणि च तदा कृतयुगं विद्या ज्ञाने यदा कर्मसु काम्येषु शक्तिर्यशसि देहिनां तदा त्रेतारजो भूतिरिति जानीहि यदा लोभस्त्वसन्तोषो मानो दम्भश्च कर्मणाञ्चापि काम्यानां द्वापरं तद्रजस्तमः यदा सदा नृतं तन्द्रा निद्रा हिंसादिसाधनं शोकमोह उभयं दैन्यं स कलिस्तमसि स्मृदः यस्मिं जना कामिनस्य शश्वत्कडुबभाषिणः तस्योत्कृष्टा जनपदा वेदा पाषण्डदूषिताः राजानश्च प्रजाभिक्षाशिष्णो दरपराजिदा अव्रतवडवो शौजाभिक्षवश्च कुटुम्बिनः तपस्विनो ग्राम वासान्यासिनो ह्यर्धलोलुभाः ह्रस्वयामः हाराश्चौरास्ते साधव स्मृताः त्यक्ष्यन्ति भृत्याश्च शूद्रा प्रतिग्रहीष्यन्ति वैश्याव्रतपरायणः उद्विघ्ना सन्ति जजना पिशा च सदृशा प्रजाः अन्याय भोजनेनाग्निदेवतातिथिपूजनम् करिष्यन्ति कलौ प्राप्तेन च पित्र्योदक्रिया स्त्रीपराश्च जन सर्वे शूद्रप्राया बहुप्रजाल्पभाग्याश्च भा भविष्यन्ति कलस्त्रियः शिरकण्ठूयनपरा आज्ञा भेष्यन्ति भत्सिताः विष्णुं न पूजयिष्यन्ति पाषण्डोपहदा जनः कलेर्दोषनिधिर्विप्रा अस्ति ह्येको महागुणः कीर्तना देवकृष्णस्य महाबन्धं परित्यजेद् देव, कृते यध्यायदो विष्णुम् प्रदायाम् जपदफलम् द्वापरे परिचर्यायाम् कलौ तद्धरिकीर्तनात् तस्माध्येयो हरिर्नित्यम् गेह्य पूज्यश्च शौनक इति श्रीबारूडे महापुराणे आचार्यकाण्डे युगधर्मकथनम् नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः अध्यायम् टु हण्ड्रेड् अण्ड् ट्वेण्टि फोर् सूत उवाच चतुर्युगसहस्रान्ते ब्राह्मो नैमिट्टिगोलयः अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी उद्दिष्टन्ति तदा रौद्रादिविसप्तदिवाकराः हेदुपि जलं सर्वं शोषयन्ति जगत्त्रयं भुग् भुवत् स्वर्महर्लोकं चराचरं जनस्तद्ध विष्णुश्च रुद्रो भूत्वा सौ पादालानि दहत्यधः विष्णुर्दहे त्रिलोकञ्ची मुखान्मेकान् सृजत्यलं वर्षन् देवै वर्षशतं नानावर्णा महाकनाः विष्णुरूपशतम्बादिवर्षाणां वायुरूर्जितः विष्णुरे कार्णविभूदे वर्षे ब्रह्मस्वरूपदृक शदे नन्दासने विष्णुर्नष्टे सुक्त्वा सुत्वा वर्षसहस्रं सज्जगद्भूयो सृजद्धरीः अध प्राकृतिकं वक्ष्ये प्रलयम् शृणु शौनक पूर्णे संवत्सरः सदे संहृत्य सकलम् जगद ब्रह्मणं न्यस्य देहे हि मुक्तो योगबलैर्हरिः ये कदा ब्रह्मणस्थानं ते भियान्ति परं पदम् अनावृष्ट्यर्कसम्पन्ना आसन्मेकास्तदा द्विजा शतं वर्षाणि वर्षधिर्मे धैरण्डं प्रपूर्यते अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पदेः पूर्णे ब्रह्मायुषि गदे विद्यतेऽम्भसि लीयते एवं सा जगदाधारातो चोर्वो प्रलीयते आतस्ते जि लीयन्ते तेजो वायौ प्रलीयते वा युखे कञ्चभूदादौ विशते च तदा महान् महान् प्रपद्यते व्यक्तं प्रकृतिपुरुषे परे शतवर्षं हरिषेदे सृजत्यध दिनगमे अव्यक्तादिक्रमेणैव व्यक्तिभू व्यक्रीभूतं चराचरम् इति श्रीगारुडे महापुराणे आचारकाण्डे नैमित्तिकप्रलयो नाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् अण्ड् ट्वेन्टि फैव् सूत उवाच अध्यात्मिका पिधापां स्त्रीं ज्ञात्वा संस्राचक्रविद उत्पन्नज्ञानवैराग्यप्राप्नोत्यात्यन्तिकं लयं संसारचक्रम् वक्ष्येः मादाबुत्क्रान्तिकालतः यद्विना पुरुषार्थो न दीनः स्यात् परमात्मनि ऊर्ध्ववासी नरस्त्यक्कृ देहमन्यत्प्रपद्यते नीयते द्वादशाखेन यमस्य यमपुरुषैः तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह प्रयच्छन्ति यमलोके तदश्नुते कृतश्च नरकं पापात् स्वर्गं यादि स्वपुण्यदः पापकृत्यादिनरकं पुण्यकृत्यादिवै दिवन् स्वर्गा च नरकात्यकृतस्त्रीणां गर्भे भवत्यभि नाभिभूतञ्च तस्यैवयादिबीजद्वयं हि तद् कललं बुद्भृतमयम् बुद तदशोणिदमेव च ेष्या फलसमोऽण्ढस्यादङ्गुरम् तद उच्यते उपाङ्गान्यङ्गुली नेत्र न स्यश्रवणानि च आवकम् यादि चाङ्गेभ्यस्तत्परन्तु न त्वजो रोमाणि जायन्ते केषाश्चैव ततः परम् नरश्चाधोमुखस्तित्वादशमे सः जायते ततस्तु वैष्णवी माया वृणोत्यत्यन्तमोहिनी बालत्वं त्वथ कौमारं यौवनं वृद्धतामपि ततश्च मरणं तत्तद्धर्माप्नो विमानवः एवं संसारचक्रेऽस्मिन् भ्राम्यदे कडीयन्द्रवद नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते पतितात् प्रतिगृह्याध अधो योनिं व्रजेद्बुधः नरकात् प्रतिमुक्तस्तु कृमिर्भवदि याचकः उपाध्यायव्यलीकं तु कृत्वा श्वः भवति द्विजा तज्जाया मनसा वाञ्छंस्तद्रव्यं गर्दभो जायते जन्तुर्मित्रसैव मित्रस्यैवापमानकृद पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते भर्तुपिण्डमुपाश्वस्थो वञ्चयित्वा तमेव यः सोऽपि मोह समापन्नो जायदे वानरो मृदः न्यासापकर्ता नरगाद्विमुक्तो जायदे कृमिः असूयकश्च नरकान्मुक्तो भवति राक्षसः विश्वासकर्ता च नरो मीनयोनौ प्रजायते यवधान्यानि संहृत्य जायते मूषको मृदः परदाराभिमर्शात्तु वृको कोरोऽभिजायते भ्रातृभार्याप्रसङ्गेन को किलो जायते नरः गुर्वादिभार्यागमनाच्चूकरो जायते नरः यज्ञदानविहा यज्ञदानविवाहानां विघ्नकर्ता भवेत् कृमिः देवता पितृविप्राणमदत्त्वा योन्नमश्नु प्रमुक्तो नरकद्वापि वायसः सन् प्रजायते ज्येष्ठभ्रात्रपमानाच्चक्रौञ्जयोनौ प्रजायते शूद्रस्तु ब्राह्मणिम् गत्वा कृमियोनौ प्रजायते तस्या मापत्यमुत्पाद्य काष्ठान्तकडिको भवेत् कृधग्नकृमिककीडपदङ्गो वृच्चिकस्तधा अशस्त्रं पुरुषं हर्ता नरसञ्जायते हरः कृमिस्त्रीवधकर्ता जबालहन्दा जजायते भोजनञ्चोरयित्वा धुमक्षिका जायते नरः हृत्वा ज्यञ्चैव मार्जारस्थिल हृच्छैव मूषकः हृदं कृत्वा च न घुलकाको मद्भुरमामिषं मध मधु कृत्वा नरोदं च पूपं कृत्वा पिपीलिकः अपो हृत्वा दु पापात्मा वयसः सम्प्रजायते हृदे काष्ठे जहारीधबोधो वा प्रजायदे हृत्वा तु काञ्चनं भाण्डं प्रिमियो नौ प्रजायदे कार्पासिके हृदे क्रौञ्जो वह्रिहर्ता बकस्तधा मयूरो वर्णकं हृत्वा शाकपत्रञ्जजायते जीवं जीवकदं याधि रक्तवस्त्वापहृन्नरः चुचुन्दरि शुभान् गन्धान् शस्यं हृत्वा शशो भवेद षण्ठा कलापहरणे काष्ठकृतृणकीटकख पुष्पं हृत्वा दरिद्रस्तु पङ्गुर्याचककृन्नरक शाकभर्ता च हरिदतो भर्ता चातकः चा गृह हृन्नरकान् गत्वा रौरवादीन् सुदारुणान् तृणगुल्मलदावल्यी त्वग्धारी तरुतां व्रजेद एष एव क्रमो दृष्टो गो सुवर्णाधिकारिणं विद्यापहारी मोघस्याद्गत्वा जनरकान् वहन् असमिध्ये हृदे चाग्नौ मन्दाग्नि खलु परनिन्दा हृदग्नम् त्वं परसीमाभिखादनं नैष्ठुर्यं निर्हृणत्वं च परदारोपसेवनं परस्वहरणाशौचं देवतानां च कुत्सनं निकृत्यबन्धनं नृणां कार्पण्यञ्च नृणां वधः उपलक्षणाद्विजानीयान्मुक्तानां नरकादनु दया भूतेषु संवादपरलोकं प्रतिक्रिया सत्यं हितार्थमुक्तदिश्च वेदप्रामाण्यदर्शनं गुरुदेवर्षिसिद्धर्षिसेवनं साधु संयमः सक्रियाश्वसनं मैत्री स्वर्गस्य लक्षणं विदुः अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं फलम् इति श्रीकारूडे महापुराणे पूर्वकाण्डे प्रथमांशाख्ये आचारकाण्डे कर्मविपाकादिकथनम् नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ओम् अध्यायम् 226 हण्ड्रेड् सूत उवाच वक्ष्ये साङ्गम् महायोगम् भुक्तिमुक्तिकरं परम् <circumedicand> सर्वपापप्रशमनं भक्त्यानु पठितं <पाधिदंश्रुनुं> शृणु ममेदि मूलं दुःखस्य नम मेदि निवर्दनं दत्तात्रेयो ह्यलर्काय इममाहमहामदिः अहमित्यङ्गुरोत्पन्नो ममेदि स्कन्धवान् महान् गृहक्षेत्राणि शाखाश्च यत्र दाराभिपल्लवः धनधान्ये महापात्रे पापमूलोदिदुर्गमः विधिवत् सुखशान्ध्यर्थम् जातो ज्ञानमहातरु चिन्नो विद्या कुदारेण ते गदालयमीश्वरे प्राप्य नीरजस्कमण्डकम् दी ीनीरजस्कमकण्डकम् प्राप्नुवन्ति परप्राज्ञा सुखनिर्वृदिमेव च मूर्तेन्द्रियलयम् नूनम् न त्वम् राजन्न चाप्यहम् न तन्मात्राधिकम् वाजानैवान्धकरणम् तथा कम् वा पश्यसि राजेन्द्रप्रधानमिद मावयोहो मृतपरेहिनिक्षेत्रज्ञः संजातोऽयम् गुणात्मकः एकत्वेऽपि पृथग्भावस्तदा क्षेत्रात्मनो नृप ज्ञानपूर्ववियोगोऽसौ ज्ञाने नष्टे च योगिनः सा मुक्तिर्ब्रह्मणा चैक्यमनैक्यम् प्राकृतैर्गुणैः तद्गृहम् यत्र वसति तद्भोज्यं येन जीवति जन्मोक्तये तदेवोक्तं ज्ञानाज्ञानेन चान्यथा उपभोगेन पुण्यानामपुण्यानां च पार्थिव कर्तव्यानां च नित्यानां क्षयन्त्वकरणास्तथा अहिंसा सत्यमस्तेऽयं ब्रह्मचर्या परिग्रसौ यमा पञ्चाधनियमाशौजं द्विविधमीरिदम् सन्तोषस्तपःसा शान्दिर्वासुदेवार्चनम् दमः आसन पद्मकाद्युक्तम् प्राणायामो मरुज्जयः प्रत्येकम् त्रिविधस्थोऽपि पूरकुम्भकरचकैः लघुर्योदशमात्रस्तु द्विगुणः सदु त्रिगुणाभिस्तु मात्राभिरुत्तमः स जपध्यानयुधौ गर्भ विपरीतस्त्वर्भकः प्रथमे न जयेत्स्वप्नम् मध्यमेन जवेपधुम् विपाकम् किृदीयेन जादान्दोषास्त्वनुक्रमाद आसनस्तन्तु युञ्जीद कृत्वा च प्रणवम् हृदि पार्ष्णिभ्याम् लिङ्गवृषणौ स्पर्शन्न आग्रमानसः रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा निरुभ्य निश्चलो भूत्वा स्थितो युञ्चीद यो गविद इन्द्रियाणीन्द्रियार्थेभ्य समवायेन प्रत्याहारमुपक्रमेद शाष्टौ चारण सा विधीये दे, देश धारणे स्मृद योग योगीदशिप हृदये चात्र तृतीया चोरसी कंठे मुखे नासी काग्रे नेत्रे भ्रू मध्यमूर्धसु किञ्चित्तस्मात् परस्मिंश्च धारणा शदधा स्मृता दशयिता धारणा प्राप्य प्राप्नोत्यक्षररूपता यथाग्निरग्नौ सङ्क्षिप्तस्तथात्मा परमात्मनि ब्रह्मरूपम् महापुण्यमोमित्येकाक्षरम् जपेत् अकारश्च तथोकारो मकारश्चाक्षरत्रयम् एतास्तिस्रस्तसो मात्रा सत्त्वराजसतामसाः निर्गुणायोगि गम्याद्यार्धमात्रापरास्तिदा विज्ञेया गान्धारस्वरसंश्रया इत्येतदक्षरं ब्रह्मपरमोङ्कारसंज्ञम् अहं ब्रह्मपरं ज्योतिस्थूलदेहविवर्जितम् अहं ब्रह्मपरं ज्योतिर्जरामरणवर्जितम् अहं ब्रह्मपरं ज्योतिपृथिव्यामलवर्जितम् अहं ब्रह्मपरं ज्योतिर्वायुवाकाश्यविवर्जितम् अहं ब्रह्मपरं ज्योतिसूक्ष्मदेहविवर्जितम् अहं ब्रह्मपरं ज्योतिस्नानास्थानविवर्जितम् अहं ब्रह्मपरं ज्योतिर्गन्धमात्रविवर्जितम् अहं ब्रह्मपरं ज्योतिःश्रोत्रत्वक् परिवर्जितम् अहं ब्रह्मपरं ज्योतिर्जिह्वाक्राणविवर्जितम् अहं ब्रह्मपरं ज्योतिप्राणापानविवर्जितम् अहं ब्रह्मपरं ज्योतिर्व्यानोदानविवर्जितम् अहं ब्रह्मपरं ज्योतिरज्ञानपरिवर्जितम् अहं ब्रह्मपरं ज्योतिस्तुरीयं परमं पदं देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं नित्यशुद्धबुद्धं मुक्तमहामानन्दमद्वयम् अहं ब्रह्मपरं ज्योतिर्ज्ञानरूपो विमुक्त ये सूत उवाच इत्यष्टाङ्गो मया योग उक्तशौनकमुक्तिदः नित्यनैमित्तिकं गत्वा लयं प्राकृतबन्धनाः उत्पद्यन्ते हि संसारेणैकं ज्ञात्वा परात्मनां विमुच्यते विमुक्तश्च ज्ञानादज्ञानमोहितः ततो न म्रियते दुःखिनरोगी न च बन्धवान् न गर्भवासे सनो दुखी सस् नाराणों व्यय भक्यानया लो भगवान्क्रिदया जप्य समय स्त्रोत्रैद व्रत यदानैच्चितिशुद्धिस्तया ज्ञान ल प्रणवादिकमन्त्रैश्च जप्यैर्मोक्तिं गदा द्विजाः इन्द्रोऽपि परमं स्थानं गन्धर्वाप् सरस्वो वराः प्राप्ता देवाश्च देवत्वमुनित्वं मुनयोगदाः गन्धर्वत्वं च गन्धर्व राजत्वं च नृपादयः इति महापुराणे आचारकाण्डेष्टाङ्गयोगकथनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ओ अध्यायं टु हण्ड्रेड् अण्ड् ट्वेण्टि सूत उवाच विष्णुभक्तिं प्रवक्ष्यामि यया सर्वमवाप्यदे यदा भक्त कैस्तुष्ये तथा न्येन के नचिद महतश्रेयसो मूलम प्रसव पुण्य सतते जीवित बलम स्वाधुनयदम स्मरण हरेहे। तस्मा सेवा बुध प्रोक्ता भक्ति साधन भूयसी ते लोकनाथ सेम कर्माकर्तने मुंजंद्यश्रोणी संघर्षाध्ये प्रहृषनूरु जगद्धा दुर्मेश दिव्याज्ञाचरण वयम इह निक्रिया कुन ये वैष्णवास्तु ते ब्रह्माक्षर न शुण्व तया भगवतेरिदम् प्रणामपूर्वकम्भक्रियायो वदेद्वैष्णवो हि सह तद्भक्तजनवात्सल्यं पूजनं चानुमोदनं तत्कथाश्रवणे प्रीतिराश्रुनेत्राङ्गविक्रियाः येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः विप्रेभ्यश्च कृतात्मत्वान्महाभागवतो हि सह विश्वोपकरणं नित्यं तदर्थं सङ्गवर्जनं स्वयमभ्यर्चनञ्चैव यो विष्णुञ्चोपजीवति भक्तिरष्टविधाख्येश यस्मिन्म्लेच्छोऽपि वर्तते स विप्रेन्द्रो मुनिश्रीमान् सयादि परमां गतिम् तस्मै देयं तदोग्राह्यं स च पूज्यो यथा हरिः स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तमः पुनादिभगवद्भक्तश्चण्डालोऽपि यदृच्छया दयां गुरुप्रपन्नाय तवास्मीति च यो वदेद अभयं सर्वभूतेभ्यो दद्यादे दद्व्रतं हरेः मन्त्रजापि सहस्रेभ्यः सर्ववेदान्तपारकः सर्ववेदान्तविस्कोट्यां विष्णुभक्तो विशिष्यते एकान्तिनः स्ववपुषा गच्छन्ति परमं पदं एकान्तेन समो विष्णुस्तस्मादेषां परायणः यस्मादेकान्तिन प्रोक्ता तत् प्रियाणामपि सर्वेषां देवदेवस्य सुप्रियः आपत्स्वपि सदा भस्य भक्तिरव्यभिचारिणा या प्रीतिरधिकविष्णोर्विषयेश्वनपायिनी विष्णुं संस्मरद सा मे हृदयान्नोपसर्पदि दृढभक्तोऽपि वेदादि सर्वशास्त्रार्थपारगः यो न सर्वेश्वरे भक्तदस्तं विद्यात् पुरुषाधमं नाधीतवेदशास्त्रोऽपि न ना कृतोध्वरसम्भवः यो भक्तिं वहदे विष्णौ तेन सर्वं कृतं भवेद यज्ञानतु वेदानां पारगापि अपि न यान्ति गतिं भक्ता यान्ति मुनिसप्तमाः य कश्चिवैष्णव लोके मिध्याचारोप्यनाश्रमी पुना सकलां लोकां सहस्राशुरीवोदिद ये नृश्यम साधुरात् पापर रता ते भी याराएणपरायण दृढ़ा जनार्दने भक्तिद्वाव्यचारिणी तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुका भ्राम्यदां तत्र संसारे नराणां कुर्म दुर्गमे हस्तावलम्बने ह्येकं येन तुष्ये जनार्दनः न शृणोधिगुणान् दिव्यान् देवदेवस्य चक्रिणः समरो बधिरो ज्ञेय सर्वधर्मबहिष्कृतः नाम्निसङ्कीर्तिदे विष्णोर्यस्य पुंसो न जायते शरीरं पुरकोद्भासि तद्भवेत् कुणापोपमं यस्मिन् भक्तिर्द्विजश्रेष्ठ मुक्तिराप्याचिराद् भवेद निविष्टमनसां पुंसां सर्वदा वृजिनक्षयः स्वपुरुष भिवीक्ष्य पाशहस्तं वदति यमकिल तस्य कर्णमूले परिहरमधुसूदनप्रापन्नन् प्रभुरहमन्यनृणां न वैष्णवानाम् अपि चेत् सुदुराचारो भजदे मामनन्यभाक् साधुरेव समन्तव्यः सम्यगव्यवसितो हि सः क्षिप् प्रं भवति धर्मात्मा शश्वच्छान्तिं स गच्छति विप्रेन्द्रप्रतिजानीहि विष्णो भक्तो न तस्य मुक्तिस्तस्य करे स्थिता यस्य भक्तिस्थिराफरौ दैवीह्येषगुणमयीधरेर् माया तमेव ये प्रपद्यन्ते मायामेधां तरं दीये किं यत्नाराधने पुंसा शिष्यदे हरिमेधसां भक्रियैर्वाराध्यते विष्णुर्नान्य तत्रोपकारकं न दानैर्विविधैर्दत्तै पुष्पैर्नैवानुलेपनैः तोषमेधि महात्मा सौ यथा भक्रिया संसारवृषवृक्षस्य द्वे बले ह्यमृदोपमे कदाचित् केशवे भक्तिस्तद्भक्तैर्वा समागमः पत्रेषु पुष्पेषु बलेषु तो ये श्व कष्टलभ्येषु सदैव सत्सु भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यैकलाभे क्रियते प्रयत्नतः आस्फोटयन्ति पितर प्रनृत्यन्ति पितामहः वैष्णवोऽस्मत्कुले जातः स नः सन्धारयिष्यति अज्ञानिनः सुकरे समधिक्षिबन्धो यत्पापिनोऽपि शिशुपाल सुयोधनाद्याह मुक्तिं गतस्मरणमात्र विधूद पापा परमभक्तिर्मदां जनानां शरमं तं प्रपन्ना ये ध्यानयोगविवर्जिताः तेऽपि मृत्युमधिक्रम्य यान्ति तद्वैष्णवं पदं भवोद्भवक्लेशदैर्हतस्तथा परिभ्रमन्निन्द्रियरन्त्रकैर्हयैः नियम्यतमाधवमे मनोहयस्त्वतङ्क्रिशङ्कौ दृढभक्तिबन्धने विष्णुरेव परं ब्रह्म त्रिभेदमिह पढ्यदे वेदसिद्धान्तमार्गेषु तन्न जानन्तिमोहिताः इति श्रीगारुडे महापुराणे आचारकाण्डे भगवद्भक्तिविवरणं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् अण्ड् ट्वेन्टि एय्ट् सूत उवाच मुक्तिहेतुमनाद्यन्तमजमव्ययमक्षयं यो न मे सर्वलोकस्य नमस्यो जाय धेन विष्णुमानन्दमद्वैतं विज्ञानं सर्वगम् प्रभुम् प्रणमामि सदा भक्त्या च दशाहृदयालयम् योऽन्तस्तिष्ठन्न शेषस्य पश्यति शुभाशुभम् तम् सर्वसाक्षिणम् विष्णुम् नमस्ये परमेश्वरम् शक्तेनापि नमस्कार संसार तृणवर्गणमुद्वेजनकरो हि सः कृष्णे स्फुर जलधरोदर चारु कृष्णे लोपाधिकारपुरुषे परमप्रमेये एको हि भावगुणमात्र दृढप्रणामः सद्य स्वपाकमपि साधयितुं सशक्तः प्रणम्य दण्डवद्भूमौ नमस्कारेण योर्चयेद सयां गतिमवाप्नो दिनदां क्रदुषदैरपि दुर्गसंसारकान्तारकूपारेऽपि प्रधावतां येककृष्णे नमस्कारो मुक् तां स्तारयिष्यदि आसीनो वा शयानो वा तिष्ठन् वा यत्र तत्र वा नमो नारायणाय यदि मन्त्रैकशरणो भवेद नारायण नारायणेदि शब्दोस्ति वागस्ति वशवर्धिनी तथापि नरके मूढा पतन्तीति किमद्भुतं च दुर्मुखो वा यदि कोटिवक्त्रो भवेन्नरकोपि विशुद्धचेदाः स वै गुणानामयुतैकदेशं वदेन्न वा देववरस्य विष्णोः व्यासाद्यमुनय सर्वेस्तु वन्दो मधुसूदनम् मदिक्षयान्निवरुतन्ते न गोविन्द गुणक्षयाद अवशेनापि यन्नाम्नि कीर्तिते सर्वपादकैः पुमान् विमुच्यते सद्य सिंहत्रस्थो मृगा यथा बद्धपरिकरस्तेन मोक्षाय गमनं प्रति स्वप्नेऽपि नाम स्पृशतोऽपि पुंसभक्षयं करोत्यक्षयपापराशिं प्रत्यक्षदकिं पुनरत्र पुंसा प्रकीर्तिदेनाम्नि जनार्दनस्य नम कृष्णाच्युदानन्दवासुदेवेत्युदीरिदं यैर्भावभावितैर्विप्र न ययौ क्षयो भवेद्यदा वन्येस्तमसो भास्करोदये तथैव खलु शौकस्य नाम संकीर्तनाद्धरेः क्वनाकपृष्ठगमनं पुनरायादिनक्षयं गच्छतां दूरमध्वानं कृष्णं मूर्छितचेतसाम् धेयम् पुण्डरीकाक्ष नामसङ्कीर्तनम् हरेः संसारसर्पः सन्दष्टविषेष्टै गभेषजम् कृष्णेदि वैष्णवम् क्षान्तम् जत्वा मुक्तो भवेन्नरः ध्यायन् कृते जपेन् मन्त्रायित्रदायाम् द्वापरेऽर्चयन् यदाप्नोति तदाप्नोति कलौ संस्मृत्य जिह्वाग्रे वर्ददे यस्य हरित्यक्षरद्वयं संसारसागरं तीर्त्वा स गच्छेद्वैष्णवम् पदम् विज्ञादुष्कृतिसहस्रसमा धृतोऽपि श्रेयः परन्तु परिशुद्धिमम्मी भीप्समानः स्नप्नान्तरेण हि पुनश्च भवम् पश्य नारायणस्तुति कदा परमो मनुष्यः इति श्रीवारुडे महापुराणे आचार्यकाण्डे विष्णुभक्तिविवरणम् नाम अष्टाविंशत्युत्तरद्विशततमोऽध्यायः ओ अध्यायम् टु हण्ड्रेड् अण्ड् ट्वेण्टि नैन् सूत उवाच अशेषलोकनाथस्य सारमाराधनं हरे हे दद्यादुपुरुषसूक्तेण यः पुष्पाण्यपयेव च अर्चितं स्याद् तेन सर्वं सराचरं यौनपूजयते विष्णुं तं विद्याद् ब्रह्मपादकम् यथ प्रवृत्तिर्भूतानां येन सर्वमिदं तदम् तं यो न ध्यायते विष्णुं स विष्ठायां नरके पच्यमानस्तु यमेन परिभाषितः किं त्वया नार्चितो देवकेशवक्लेश नाशनः उदकेनाप्यभावेन द्रव्याणामर्चितप्रभुः यो ददादि स्वकं लोकं स किं न न तत्करोति सा मादानपितानापि बान्धवः यत्करोति कृषिकेशसन्तुष्टश्रद्धयार्चितः वर्णाश्रमाचारवद पुरुषेण परः पुमान् विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः न ना दानैर्विभिधैर्दत्तैर्नपुष्पैर्नानुलेपनैः ना तोषमेति महात्मा संयदा भक्त्या जनार्दनः सम्पदैश्वर्यमहात्म्यै सन्तत्या न च कर्मणा विमोक्तैश्चैकदा लभ्या मूलमाराधनं हरेः यदि श्रीगारूढे महापुराणे आचारकाण्डे विष्णुपूजानिरूपणं नामैको न त्रिंशदुत्तरद्विशततमोऽध्यायः अध्यायम् 230 हण्ड्रेड् अण्ड् तर्टि सूत उवाच आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा किं तस्य दानैः किं दीर्घैः किं तपोभिः किमध्वरैः यो नित्यं ध्यायते दे देवं नारायणमनन्यधीः षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च नारायणप्रणामस्य कलां नार्सन्दिषोडशीम् प्रायश्चित्तान्यशेषाणि तपः कर्माणि यानि वै विद्धितेषामशेषाणाम् कृष्णानुस्मरणम् परम् कृतपापेनुरकृतिश्च यस्य पुंसप्रजायते प्रायश्चित्तस्यैकम् हरे संस्मरणम् परं मुहूर्तमपि योध्याये नारायणमदन्द्रितः सोऽपि स्वर्गतिमाप्नोति किम् पुनस्तत्परायणः जाग्रस्वप्नसुषुप्तेषु योगस्तस्य च या काचिन्मनसो वृत्तिसा भगवत्यच्युदाश्रयात् उत्तिष्ठन्निपतन्विष्णुं प्रलपन्विवम् प्रलपन्विविशंस्तथा भुञ्चन् जाग्रच्छ गोविन्दमाधवम् यश्च संस्मरेद स्वे स्वे कर्मण्यभिरतकुल्याचित्तम् जनार्दने येषा शा शास्त्रानुसारो कृति किमन्यैर्बहुभाषितैः ध्यानमेव परो धर्मो ध्यानमेव परं तपः ध्यानमेव परं शौचं तस्माद्ध्यानपरो भवेद नास्ति विष्णो परं ध्येयं तपो नान शनात् परं तस्मात् प्रधानमत्रोक्तं वासुदेवस्य चिन्तनं यद्दुर्लभं परं प्राप्यं मनसो यन्नगोचरं तदप्यप्रार्थितम् ध्यादो ददादिमधुसूदनः प्रमादात् कुर्वताम् कर्म पच्यवेदाध्वरेषु यद् स्मरणादेव तद्विष्णो स्यादि स्यादितिश्रुदिः ध्यानेन सदृशो नास्ति शोधनम् पापकर्मणाम् आगामिदेहसेदूनां दासको योगपावकः विनिष्पन्नसमाधिस्तु मुक्तिमत्रैव जन्मनि प्राप्नोति योगी योगाग्नि दग्धकर्मा च योचिराद यद्धाग्निरुद्यतशिख कक्षं दहदि वा निदः तथा चित्तस्ति दे विष्णौ योगिना सर्वकिल्विषम् यद्धाग्नियोगात्कनकमलं संप्रजायदे, सम्प्लुष्टो वासुदेवेन मनुष्याणां सदा मलः गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु यत्पापं निलय यादि स्मृते नश्यति तद्धरौ प्राणायामसहस्नैस्तु यत्पापं नश्यति ध्रुवं क्षणमात्रेण तत्पापं हरेर्ध्यानात् प्रणश्यदि कदिप्रभावादुष्टोक्ति पाषण्डानां तदोक्तयः न क्रामेन्मानसं तस्य यस्य चेदसि केशवः सा तिधिस्तदहोरात्रं स योगः स चन्द्रमाह लग्नं तदेव विख्यातं यत्र संस्मर्यदे हरिः सा हानिस्तन्महच्छिद्रं जडमूकदा चन्मुहूक्तम् क्षणो वापि कलो न चिन्त्यते कलौ तस्य कलितस्य कृते युगे कृदिनो यस्य गोविन्दो यस्य चेदसि यस्याग्रदस्तदा यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा गोविन्दे नियतम् चेदकृतकृत्य सदैव सः वासुदेवे मनो यस्य जपहोमार्चनादिषु तस्यान्तरायो मैत्रेय वेवेन्द्र त्वादिकम् फलम् असन्त्यज्य जगार्सस्थ्यम् स तप्त्वा जस्तपः चिनति पौरिषीम् मायाम् केशवार्पितमानसः क्षमाम् कुर्वन्ति क्रुद्धेषु इदयाम् मूर्खेषु मानवाः मुदम् धर्मशीलेषु गोविन्दे हृदयस्थिते ध्याये नारायणं देवं स्नानदानादिकर्मसु प्रायच्छितेषु दे सर्वेषु दुष्कृतेषु विशेषदः लाभस्तेषां जयस्तेषां कुदस्तेषां पराभवः येषामिन्दि वरस्यामो हृदयस्थो जनार्दनः कीटपक्षिगणानां जहरौ समन्यस्तचेतसाम् ऊर्ध्वाह्येव गतिश्चास्ति किं पुनर्ज्ञानिनां नृणां पा सुदेवतरुचाया नादिशीतादि तावदा नरगद्वारशमनी सा किमर्थं न सेव्यते न च दुर्वासस राज्यं चाभिशचीपदे हे हन्तुं समर्थं हि सखे हृद् कृते मधुसूदने पतत्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वदः नापयादि यदा चिन्तासिद्धमन्येदधारणां ध्येयः सदा सविद्रुमण्डलमध्यवर्तो नारायणसरसिजासनसन्निविष्टः केयूरवान् मकरकुण्डलवान् किरीडीहारी हिरण्मय वपुर्धृत शङ्खचक्रः न हि ध्यानेन सदृशम् पवित्रमिह विद्य शोपचान्नानि भुञ्जानोपाभिनैवात्रिप्यते सदा चित्तम् समासक्तं जन्तौर्विषयगोचरे यदि नारायणेऽप्येवं को नमुच्येदबन्धनाद सूत उवाच विष्णुभक्तिर्यस्य चित्तेकम् वा जीवो न मेत् सदा सतार यदि चात्मानम् तज्ज्ञानम् यत्र गोविन्दसागता यत्र काशवः तत्कर्म यत्तदर्थाय किमन्यायुभाषितैः सा जिह्वाया हरिं स्तौदि ेव केवलौ श्लाघ्यौ यौ तत्पूजा करौ करौ प्रणामीशस्य शिरफलं विदुस्तदर्चनं पाणिफलं दिवौकसखा मनफलं तद्गुणकर्मचिन्तनं भजस्तु गोविन्द गुणस्तु दिह्फलं मेरुमन्दरं मात्रोऽपि राशि पापस्य कर्मणः केशवस्मरणादेव तस्य सर्वं विनश्यति यत्किञ्चित् कुरुदे कर्मपुरुषः साध्वः साधु वा सर्वं नारायणन्यस्य कुर्वन्नपि न लिम्पदि तृणादि च दुरास्यान्तम् भूतग्रामं चतुर्विधं चराचरं जगत् सर्वं प्रसुप्तमायया तव यस्मिन्न्यस्तमधिर्णयादिनरकम् स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र न वा विश्येत्कथमभिब्राह्मोऽलोकोऽल्पः मुक्तिम् जदशि संस्थितो जडधिया पुंसाम् ददात्यव्ययः यदयम् प्रयाधि विलयम् तत्राच्युदे कीर्तिदे अग्निकार्यम् जपस्नानम् विष्णोर्ध्यानम् जूजनम् दुःखो दधे कुर्युर्ये च तत्र नरन्ति चेत् राष्ट्रस्य शरणं राजापितरो बालकस्य च धर्मश्च सर्वमर्द्यानां सर्वस्य शरणं हरिः येन मन्ति जगद्यो निम्बासुदेवं सनातनं न येभ्यो विद्यते तीर्थमधिकं मुनिसत्तमम् कुर्या स्वाध्यायमेव तमे बोद्धिष्य गोविन्दं ध्यायन् नित्यमदं त्रितः शूद्रं वा भगवद्भक्तं निषादं श्वपजं तथा द्विजजादि समं मन्यो नयादि नरकं नरः आदरेण सदा स्तौदि धनवन्दं धनेच्छया तदा विश्वस्य कर्तारम् कोनमुच्येद बन्धनाद यथा प्राप्तवनो वन्यर्दहत्यार्द्रमपीन्धनम् तथा विधस्थितो विष्णोर्योगिनां सर्वकिल्बिषाम् आदीप्तं पर्वतं यद्वन्नाश्रयन्ति मृगादयः तद्वत्पापनि पापनि सर्वाणि योगाभ्यासरथं नरं यस्य यावांश्च विश्वासस्तस्य सिद्धिस्तु तावधि यदावनेव वा कृष्णस्य प्रभाव विदे विद्वेषादपि गोविन्दं दमघोषात्मजस्मरन् शिशुपालोगतस्तत्त्वं किं पुनस्तत्परायणः इति श्रीगारूढे महापुराणे आचार्यकाण्डे विष्णुमहात्म्यवर्णनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः अध्यायम् 231 सूद अण्ड् तर्टि वन् सूत उवाच नारसिंहस्तु दिम्बक्ष्ये शिवोक्तम् शौनकाधुना पूर्वम् मातृगणा सर्वे शङ्करम् वाक्यमब्रुवन् भगवन् भक्षयिष्याम सदेवासुरमानुषम् त्वत्प्रसादा जगत् तदनुज्ञातुमर्हसि शङ्कर उवाच भवतीभिः प्रजा सर्वान् रक्षणीया न संशयः तस्मा द्वार तस्माद्वारतरप्रायं मनः शीघ्रं निवर्ध्यताम् इत्येवम् शङ्करेणोक्तमनाधृत्य तु तध्वजः भक्षया मासुरव्यग्रास्त्रैलोक्यं सचराचरम् त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणेन वै नृत्यं करूपिणं देवं प्रतद्यौ भगवान् शिवः अनादिनिधनं देवं सर्वभूतभवोद्भवं विद्युज्जिह्वं महादंष्ट्रं स्फुरत्केसरमालिनं रत्नाङ्गदं समुकुदं हेमकेसरभूषितं कोनिसूत्रेण महदा काञ्चनेन विराजितं नीलोत्पलदलश्यामं रत्न नूबुरभूषितं तेजसक्रान्तसकलं ब्रह्माण्डोदरमण्डपम् आवर्तसदृशाकारै संयुक्तं देहरोमभिः सर्वपुष्पाैर्योजिताञ्च धारयं च महास्त्रजम् ध्यादमात्रो भगवान् प्रददौ तस्य दर्शनम् यादृशेन रूपेण द्यादो रुद्रैस्तु भक्तितः तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः प्रणिपत्य तु देवेशं तदा तुष्टावशङ्करः शङ्कर उवाच नमस्तेस्त जगन्नाथ नारसिंहवबुर्धर दैत्येश्वरेन्द्र संहारि नख शुक्तिविराजित नखमण्डल स भिन्न हेमपिङ्कलविग्रह नमोऽस्तु पद्मनाभाय शोभनाय जगद्गुरो कल्पान्ताम्भोधनिर्घोष सूर्यकोटि समप्रभ सहस्रयम सन्त्रा सहस्रेन्द्रपराक्रम हस धनदस्वीदसहस्रचरणात्मक सहस्रचन्द्रप्रतिम सहस्रांशुहरिक्रम सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुतः सहस्ररुद्रसंजप्त सहस्राक्षनिरीक्षण सहस्रजन्ममधनसहस्रबन्धमु बन्धनमोचन सहस्रवायुवेदक्षसहस्रात्मकृपाकर स्तुत्वा इवम् देवदेवेशं नृसिंहवपुषम् हरिम् विज्ञापयामास पुनर्विनयावनतशिवः अन्तकस्य विनाशाय या हृष्टा मादरो मया अनादृत्य तु मद्वाक्यम् भक्ष्यन्त्वद्भूत भक्ष्यन्तद्भुता प्रजाः हृष्ट्वा काश्चन संहर्तुमपराजितः पूर्वं कृत्वा कथं तासां विनाशमभिरोचये एवमुक्तस्य रुद्रेण नरसिंहवपुर्हरिः सहस्र हे वीर्जिह्वाग्रा तदा वागीश्वरो हरिः तदा सुरगणान् सर्वान् रौद्रान् मादृगणान् विभुः संहृत्य जगदशर्म कृत्वा नरसिंहमिदं स्तोत्रं ह्यः पठेन् नियतेन्द्रियः मनोरथप्रदस्तस्य रुद्रस्येव न संशयः ध्यायेन् नृसिंहं तरुणार्कनेत्रं सिदाब्जुजातं परापरेशं जगदां निधानं जपेदिदं सन्तत दुःखजालं जगादिनीकारमिवांशुमायी स माधृवर्गस्य करोति मूर्तिं यदा तदा तिष्ठति तत्समीपे देवेश्वरस्यापि नृसिंहमूर्ते पूजां विधातुं त्रिपुरान्धकारी प्रसाद्य तं देवपरं जगन्मातृगणेभ्य एव च इति श्रीगारुडे महापुराणे आचार्यकाण्डे नृसिंहस्तोत्रम् नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् अण्ड् तर्टि सूत उवाच कुलामृतं प्रवक्ष्यामि स्तोत्रं यत्तु हरो ब्रवीद पृष्ठश्री नारद उवाच यः संकार्ये सदा द्वन्द्वैः कामक्रोधै शुभाशुभैः शब्दादिविषयैर्बग्धपीड्यमानः स क्षणं विमुच्यते जन्तुर्मृत्युः संसारसागराद भगवन् श्रोतुमिच्छामि त्वत्तो हि त्रिपुरान्तक तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः उवाच शम्भुप्रसन्नवदनो हरः महेश्वर उवाच ज्ञानामृदम् परं गुह्यं रफस्य मृषि सत्तम वक्ष्यामि शृणु दुःखघ्नं भव बन्दभया महम् तृणादि चतुरास्यान्तम्भूतग्रामम् चतुर्विधम् चराचरम् जगत् सर्वम् प्रसुप्तम् यस्य मायया तस्य विष्णो त्रिःसादेन यदि कश्चित् प्रबुध्यदे न निस्तरदि संसारम् देवानामपि दुस्तरम् भोगैश्वर्यमदोन्मत्तस्तत्त्वज्ञानपराङ्मुखः पुत्रधारकुटुम्बेषु मत्ता सीदन्धिजन्तवः सर्वय कार्णवेमग्नजीर्णा वनगजा इव यस्त्वाननं निबध्नादि दुर्मधिकोशकारवद तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि तस्मान्नारद सर्वेषां देवानां देवमव्ययम् आराधयेत् सदा सम्य अध्यायेद्विष्णुम् मुदान्विताः यस्तु विश्वमनाद्यन्तमजमात्मनि संस्थितं सर्वज्ञमचलं विष्णुं दे। सदा ध्ये ध्यायेत् समुच्यते देवं गर्भोचितं विष्णुं सदा ध्यायन् विमुच्यते अशीरीरं विधाधारं सर्वज्ञानमनोरथिम् अचलं सर्वकं विष्णुं सदा ध्यायन् विमुच्यते निर्विकल्पं निराभासं निष्प्रपञ्चं निरामयं वासुदेवं गुरुं विष्णुं सदा ध्यायन् विमुच्यते सर्वात्मकञ्चवयावदात्मचैतन्यरूपकं शुभमेकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते वाक्यातितन्त्रिकालज्ञं विश्वेशं लोकसाक्षिणं सर्वस्मादुत्तमं विष्णुं सदा ध्यायन् विमुच्यते ब्रह्मादिदेव गन्धर्वैर्मनिभिसिद्धचरणैः योगिभिः सेवितं विष्णुं सदाध्यायन् विमुच्यते संसारबन्धनामुक्तिमिच्छं लोको ह्यशेषदः स्तुत्वैवं वरदं विष्णुं सदा ध्यायन् विमुच्यदे सुद उवाच नारदेन पुरा पृष्ट एवं स वृषभध्वजः यत्तेन तस्मै व्याख्यातं तन्मया कथितं तव तमेव सत त्यायन्निर्व्ययं ब्रह्मनिष्कलम् अवाप्स्य सिद्ध्रुवं ताद शाश्वदम्पदमव्ययम् अश्वमेधसहस्राणि वाजपेयशतानि च क्षणमेकाप्रचिद्रस्य क्षणमेकाग्रचित्तस्य कलां नार्हन्ति षोडशीं श्रुत्वा सुरऋषिर्विष्णो प्राधान्यमिदमीश्वराद प्राधान्यमिदमीश्वराद् स विष्णुं सम्यगाराध्यसिद्धपदमवाप्तवान् यप्पडे शृणो याद्वापि स्तवोत्तमं कोडि जन्म कृतं पापमपि तस्य प्रणश्यति विष्णोस्तवमिदं दिव्यं महादेवेन कीर्दिदं प्रयत्नाद्य पदे नित्यममृतत्वं स गच्छति इति श्रीगारूडे महापुराणे आचारखण्डे ॐ